मार्कण्डेयपुराणम् अध्यायं हण्ड्रड् आदित्यस्तव वर्णनं मार्कण्डेय उवाच तस्य सन्ताप्यमानेतु तेजसोर्ध्वमधस्यथा शुश्रुक्षुश्चिन्तयामास पद्मयो निःपितामहः सृष्टिकृतापि मे नाश्यम् प्रयास्यत्यभितेजसा भास्वदसृष्टिसंहारस्तिहेदोर्महात्मनः अप्राणाः प्राणिनः सर्व आपश्युष्यन्ति ते जसा न चाम्भसा विना सृष्टिर्विश्वस्यास्य भविष्यति इति सञ्चिन्त्य भगवान् स्तोत्रं भगवतो रवेः चकार तन्मये भूत्वा ब्रह्मा लोकपितामहः ब्रह्मोवाच नमस्ये यन्मयं सर्वमेतत्सर्वमयश्चयः विश्वमूर्तिः परं ज्योतिर्यत्तध्यायन्ति योगिनः ह्यरुङ्मयो यो यजुषां निधानं साम्नां च यो यो निरचिन्त्यशक्तिः त्रयीमयस्थूलतयार्धमात्रा परस्वरूपो गुणपारयोग्यः त्वां सर्वहेतुं परमं च वेद्यमाद्यं परं ज्योतिरवेद्यरूपं स्थूलं च तया नमस्ते भास्वन्दमाद्यं परमं परेभ्यः सृष्टिं करोमि यदहं तव शक्तिराद्या तत्प्रेरितो जलमहीपवनाग्निरूपां तद्देवतादिविषयां प्रणवाद्य शेषां यास्तिलया वी तद वक्स्वे जलशोषण पृथिव्या सृष्टिकोषिज तथा व्या भगवन्गगनस्व पंच था परिपासि विश्वं। यज्ञर्यजन्ति परमात्मविदो भवन्तं विष्णुस्वरूपमखिलेष्ठिमयं विभस्वन् ध्यायन्ति चापि यतयो नियतात्मचित्ताः सर्वेश्वरं परममात्मविमुक्तिकामा नमस्ते देवरूपाय यत्नरूपाय नमः परब्रह्मस्वरूपाय चिन्त्यमानाय योगिभिः उपसंहारतेजो यत्तेजः सः संहदिस्तव सृष्टेर्विधाताय विभो सृष्टौ चाहं समुद्यतः मार्कण्डेय उवाच इत्येवं संस्तुतो भास्वान्ब्रह्मणा सर्गकर्तृणा उपसंहृतवांस्तेजः परं स्वल्पमधारयद चकार च ततः सृष्टिं जगदः पद्मसम्भवः तथा तेषु महाभागः पूर्वकल्पान्धरेषु नरकांश्च महामुने इति श्रीमार्कण्डेयपुराणे आदित्यस्तवो नाम शततमोऽध्यायः ओ